म् श्रीगुरुभ्यो नमः हरिः ॐ गणानाहम् त्वा गणानाहङ्गणानाहम् त्वा गणपतिम् गणपतिम् त्वा गणानाङ्गणानाहम् त्वा गणपतिम् गणपतिम् त्वा गणपतिगुम् हवामहे हवामहे गणपतिम् त्वा गणपतिगुम् हवामहे गणपतिगुम् हवामहे हवामहे गणपतिम् गणपतिगुम् हवामहे कविम् कविगुम् हवामहे गणपतिम् गणपतिगुम् हवामहे कविम् गणपतिमिति गण पतिम् हवामहे कविम् कविगुम् हवामहे हवामहे कविम् कीनाङ्कीनाङ्कविगुम् हवामहे हवामहे कविङ्कीनाम् कविं कविलिङ्गभीनाङ्कभीनां कविं कविं, कविं, कविं, कविङ्गभीनामुपमश्रवस्तममुपमश्रवस्तमङ्क भीनाङ्कविङ्गभीनामुपमश्रवस्तमम् कवीनामुपमश्रवस्तममुपमश्रवस्तमम् कवीनाम् कवीनामुपमश्रवस्तमम् उपमश्रवस्तममित्युपमश्रवहात्वमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणाम् ज्येष्ठराजम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणो ब्रह्मणो ब्रह्मणाम् ज्येष्ठराजम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणः ज्येष्ठराजमिति ब्रह्मणाम् ब्रह्मणो ब्रह्मणो ब्रह्मणाम् ब्रह्मणाम् ब्रह्मणस्पते ब्रह्मणो ब्रह्मणाम् ब्रह्मणापते ब्रह्मणस्पते पते ब्रह्मणो ब्रह्मणस्पत आपते ब्रह्मणो ब्रह्मणस्पत आ पत आपते पत आ नो न आपते पत आ नः आ नो न आ नशृण्वन् शृण्वन् आ नशृण्वन् न शृण्वन् शृण्वन्नो शृण्वन् नोतिभितिभिः शृण्वन् शृण्वन् सीदसादनगुं सादनगुंसीदसीदसादनम् सादनमिति सादनम् ओम् श्रीमहागणपतये नमः